दुर्दैव दुःखदहने परि दह्यमानो धावन्मृषावनविधौ परिचेष्टमानः सर्वात्मनाथ तरसा शरणं गतोऽस्मि श्रीवायुपुत्र मम देहि करावलम्बम् लब्ध्वा यदा परिभवं विभवैर्हे नो दीनोरुजाननुषुचा परितप्यमानः पश्यन्न चान्यमभयम् शरणं गतोऽस्मि श्रीवायुपुत्र मम देहि करावलोबम् कामादिभिरिपूजने परिपीड्यमानो चित्तह। मम देहि करावलम्बम् सदैव हृदये नितरामशान्तिर्ध्वान्तावृते हि नयने न च भातितत्वं कायेन वाग्भिरनिशं शरणं गतोऽस्मि श्रीवायो पुत्र मम देहे स्वजनशोकशतैरभीक्ष्णम् क्लिष्टोऽतिमोहनिगणैर्नितरां निबद्धः कारागृहे स्थितिरहो स्वगृहाभिधे किम् श्रीवायुपुत्र मम देहि करावलौ संसार जंगल भ्रमतो भ्रम तो भ्रमा दिभ्रांतृष्टिदीशम पृथो हि मम देहि करावलम्बम् किं जीवनं विफलमेव गतं मदीयम् भक्तिस्तथा पुत्र मम देहि करावलम्बम् जानामि नैव तव तत्त्वमनन्तरूपम् संसाधनं किमपि वपुषा शरणं गतोऽस्मि पुत्र मम देहि करावलम्बम् मम देहि करावलम्बी आञ्जनेयदेवस्य स्तोत्रमेतत्प्रकल्पितम् श्री भिक्षुण अम गुणग्राम समाख्याने धृतव्रता शा स्तोत्रं तयामुदा